तान् विक्रमेण जित्वे मामखिलाम्भुङ्क्ष्वमेदिनीम् अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप वैशम्पायनुवाच श्रुत्वा तुराधेयवचो धृतराष्ट्रः पूज्य ततः पश्चादिदं वचनमब्रवीत् उपपन्नं महाप्रज्ञे कृतास्त्रे सूतनन्दने त्वयि विक्रमसम्पन्नम् इदं वचनमीदृशम् भूय एव तु भीष्मश्च द्रोणो विदुर युवाम् च कुरुतं बुद्धिं भवेद्यानः सुखोदय तत आनायतान् सर्वान् मन्त्रिणः सुमहायशाः धृतराष्ट्रो महाराज मन्त्रयाम स श्रीमहाभार आदिपर्वण विदुरागमनराज्यलंभपर्वण धृतराष्ट्रमंत्रणे एक शम